अथ चतुर्दशोऽध्यायः युधिष्ठिर उवाच असाम् निध्यम् कथम् कृष्ण तवासीद्वृष्णिनन्दन क्वचासीद्विप्रवासस्ते किं चाकाशीः प्रवासतः श्रीकृष्ण उवाच शाल्वस्य नगरम् सौभम् गतोऽहम्भरदर्षभ निहन्तुम् कौरव श्रेष्ठ तत्र मे शृणु कारणम् महातेजा महाबाहर्यः स दमघोषात्मजो वीरः शिशुपालो मया प्रति सरोषवशमापन्नोन्नामृष्यत दुरात्मवान् श्रुत्वा तं निहतं शाल्वस्तीव्र रोष समन्वितः स तत्र योधितो राजन् कुमारैर्वृष्णिपुङ्गवैः आगतः कामगं सौभमारुह्यैव नृशंसवत् ततो वृष्णि प्रवीरांस्तान् बालान् हत्वा बहुंस्तदा पुरोद्यानानि सर्वाणि भेदयामास दुर्मतिः उक्तवांश्च क्वासौ वृष्णिकुलाधमः वासुदेवः स मन्दात्मा तस्य युद्धार्थिनो दर्पं युद्धेनाशयितास्म्यहम् आनर्ता सत्यमाख्यात तत्र गन्तः स्मि